फलानि वृक्षमारुह्य विचिन्वन्ति च ते तदा तदा पादप्रहारेण भीमः कम्पयते द्रुमान् प्रहारवेगाभिहता द्रुमा व्याघूर्णितास्ततः सफलाः प्रपतन्ति स्म द्रुतं त्रस्ताः कुमारकाः न ते नियुद्धेन जवे न योग्यासु कदाचन कुमारा उत्तरं चक्रुः स्पर्धमानावृकोदरम् एवं स धर्तराष्ट्रांश्च स्पर्धमानो वृकोदरः अप्रिये तिष्ठदत्यन्तम् बाल्यान्न द्रोहचेतसा ततो बलमतिख्यातं धार्तराष्ट्रप्रतापवान् भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत् तस्य धर्मादपेतस्य पापानि परिपश्यतः मोहादैश्वर्यलोभाच्च पापामतिरजायत अयं बलवतां श्रेष्ठः कुन्तीपुत्रो व्रकोदरः मध्यमः पाण्डुपुत्राणां निकृत्यासं प्राणवान् विक्रमी चैव शौर्येण महतान्वितः स्पर्धते चापि सहितानस्माने वृकोदरः तं तु सुप्तं पुरोद्याने गङ्गायां प्रक्षिपामहे अथ तस्मादवरजं श्रेष्ठं चैव युधिष्ठिरम्